तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनमस्मृतम् विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति अनाशयित्वा क्लेष्टारम् परलोके च नन्दति तस्माद्बलवता चैव दुर्बलेन च नित्यदा क्षन्तव्यम् पुरुषेणाहुरापत्स्वपि विजानता मन्योर्हि विजयम् कृष्णे प्रशंसन्तीह साधवः क्षमावतो जयो नित्यम् साधोरिह सताम् सत्यम् चान्द्रिततः श्रेयो नृशम् स्याच्चान्द्रशंसता तमेवम् बहु दोषन्तु क्रोधम् साधु विवर्जितम् मादृशः प्रसृजेत् कस्मात् सुयोधनवधादपि तेजस्वीतियमाहुर्वै पण्डितादीर्घदर्शिनः न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम् यस्तु क्रोधम् समुत्पन्नम् प्रज्ञया प्रतिबाधते तेजस्विनन्तम् विद्वांसो मन्यन्ते तत्त्वदर्शिनः क्रुद्धो हि कार्यम् सुश्रोणि प्रपश्यति न मदा नर क्रुद्धो नुप्य ह्यवध्यान क्रुद्धो गुरून् क्रुद्धस्तु तस्मातेजसी कर्तव्य क्रोधो दूरे प्रतिष्ठितः, दाक्ष्यम् ह्यमर्षः शौर्यम् च शीघ्रत्वमिति तेजसः गुणाः क्रोधाभिभूतेन न प्राप्तुमञ्जसा